मुद्गलपुराणं खण्डम् एय्ट् धूम्रवर्णचरितम् अध्यायं फोर्टि नैन् गणेशहृदयकथनम् श्रीगणेशाय नमः शौनक उवाच प्रकृतं वदसूदत्वं संवादं शङ्करस्य च सनकादिर्विशेषेण सर्वसिद्धिकरम् परम् नानावतारसंयुक्तम् धूम्रवर्णचरित्रकम् श्रुत्वा सनकमुख्यास्थं किमुचुर्योगसिद्धये सुत उवाच धूम्रवर्णावतारस्य श्रुत्वा कं वधसं श्रुतम् चरितं हृष्टरोमाणः पप्रत्युशङ्करं द्विजाः सनकाद्यावुजुः नानावतारसंयुक्तं श्रुत्वा माहात्म्यमुत्तमं धूम्रवर्णावतारस्य सन्तुष्टा स्म सदा शिव अधुना साधि सर्वे स योगप्राप्त्यर्थमुत्तमम् विधिं सुखकरं शीघ्रं सुगमं योगिनायक श्रीशिव उवाच गणेशहृदयं वक्ष्ये सर्वसिद्धिप्रदायकं साधकाय महाभागा शीघ्रं वैशान्दिदं परम् पुराकं गणनाथस्य ध्यानयुक्तो भवं द्विजाः तत्र मां सरिदां श्रेष्ठा जगादवाक्यमुत्तमम् गङ्गोवाच वदशङ्करकस्य त्वं ध्यानं करोषि नित्यदा इच्छामि तमहं ज्ञातुं त्वत्तः परमं मदं श्रीशिव उवाच गणेशं देवदेवेशं ब्रह्म ब्रह्मेशमादराद ध्यायामि सर्वभावज्ञे कुलदेवं सनातनं तस्य यत् हृदयं देवि गुप्तं सर्वप्रदायकं कथयिष्यामि सर्वज्ञे येन ज्ञास्यसि तं विभुं पुरा ज्ञानावृदोऽहं तु तपसि संस्थितो भवम् तात्र तपःप्रभावेण हृद्यपश्यं गजाननं तस्य दर्शनमात्रेण स्फूर्ति प्राप्ता मया प्रिया तथा गणेश्वरं ज्ञात्वा योगिवन्द्यो भवं मुदा तत्तेकं शृणुवक्ष्यामि गणेशहृदयं परं येन गणेशयोगे त्वं सम्भविष्यसि ॐ अस्य गणेशहृदयस्तोत्रमन्त्रस्य शम्भुऋषिः नानाछन्दांसि गणेशो देवता गमिति बीजं ज्ञानात्मिकाशक्तिः नादकीलकं श्रीगणपतिप्रीत्यर्थमभीष्टसिद्ध्यर्थे जपे विनियोगः गमित्येकाक्षरात्मगबीजैकरन्यासा षडङ्गन्यासाश्च अदध्यानम् सिन्धूराभं त्रिनेत्रं पृथुतरजठरं रक्तवस्त्रावृतं तं पाशं चैवुशं वै रदनमभयकं पाणिभिः सन्तधानम् सिद्ध्या बुद्ध्या प्रशिष्टं नानाभूषाभिरामं निजजनसुखदं नाभिशेषं गणेशं एवं ध्यात्वा मानसोपचारैः पूजयेद् किञ्चिन्मूलमन्त्रं जप्त्वा हृदयं पठेद ॐ गणेशमेकदन्तं च चिन्तामणिं विनायकं तुंडिराजं मयूरेशं लम्बोदरं गजाननं हेरंबं वक्रतुण्डं च ज्येष्ठराजं निजस्थितम् आशापुरं तु वरदं विकटं धरणीधरं सिद्धिबुद्धिपदिं वन्दे ब्रह्मणस्पदि संनिधम् माङ्गल्येशं सर्वपूज्यं विघ्नानां नायकं परम् एकविंशतिनामानि गणेशस्य महात्मनः अर्थेन संयुतान्येव हृदयं परिकीर्तितं गङ्गोवाच एकविंशतिनाम्नां त्वमर्थं भ्रूहि सदाशिव गणेशहृदयं येन जानामि करुणानिधे श्रीशिव उवाच गकाररूपं विविधं चराचरं नकारकं ब्रह्म तथा परात्परं तयोस्थितास्तस्य गणाः प्रकीर्तिता गणेशमेकं प्रणमाम्यथं परम् मायास्वरूपं तु सतैकवाचकम् दन्तः परो मायिकरूपधारकः योगे तयोरेकरदं सुमानिधीष्टं न दोऽहं जनभक्तिलालसं चित्तप्रकाशं विविधेषु संस्थं लिप्तं न लेपादिविवर्जितं तं भोगैर्विहीनं त्वथ भोगकारं चिन्तामणिं तं प्रणमामि नित्यं विनायकं नायकवर्जितं प्रिये विशेषदो नायकमीश्वरात्मनां निरङ्गुशं तं प्रणमामि सर्वदं सदात्मकं भावयुदेन चेतसा वेदाः पुराणानि महेश्वरादिका शास्त्राणि योगेश्वर देवमानवाः नागासुरा ब्रह्मगणाश्च जन्धवो ढुण्ढन्दि वन्दे त्वथ ढुण्डिराजकम् मायार्थवाच्यो मयूरभावो नानाभ्रमार्थं प्रकरोदितेन तस्मान्मयूरे शमयो वदन्ति नमामि मायापदिमासमन्दाद यस्योदराद्विश्वमिदं प्रसूदं ब्रह्माणि तद्वज्जरे अनन्दरूपं जठरं हि यस्य लम्बोदरं तं प्रणतोऽस्मि नित्यं जगद्गलाधो गणनायकस्य गजात्मकं ब्रह्मशिरः परेशं तयोश्च योगे प्रवदन्ति सर्वे गजाननं तं प्रणमामि नित्यं दीनार्तवाच्यस्त्वध हे जगद्गो ब्रह्मार्थवाच्यो निगमेषु रम्भः तत्पालकत्वाच्च तयोः प्रयोगे हे रम्बमेकं प्रणमामि नित्यं विश्वात्मकं यस्य शरीरमेकं तस्माच्च वक्रं परमात्मरूपं तुण्डं तदेवं हि तयोः प्रयोगे तं वक्रतुण्डं प्रणमामि नित्यं मातापितायं जगदां परेषां कस्यापि मादा जनकादिकं नः श्रेष्ठं वदन्दे निगमाः परेषं तं ज्येष्ठराजं प्रणमामि नित्यम् नानाचतुस् विविधात्मकेन संयोगरूपेण निजस्वरूपं पूर्यस्य सा पूर्णसमाधिरूपा स्वानन्दनाधं प्रणमामि चातः मनोरथान् पूरयतीह गङ्गे चराचराणां जगदां परेषाम् अदो गणेशं प्रवदन्ति चाशाप्रपूरकं तं प्रणमामि नित्यं वरै समास्तापिदमेव सर्वं विश्वं तथा ब्रह्मविहारिणा च अतः विप्रमुखा वदन्ति वरप्रदं तं वरदं नदोऽस्मि मायामयं सर्वमिदं विभाति मिथ्यास्वरूपं भ्रमदायकं च तस्मात् परं सत्यमेनं परेश्यं विकडं नमामि चित्तस्य प्रोक्ता मुनिभिः पृथिव्यो नानाविधा योगिभिरेव गङ्गे तासां सदा धारक एक एव वन्दे धीधरमाधिभूतम् विश्वात्मिका ब्रह्ममयीः बुद्धिस्तस्या विमोहप्रतिका च सिद्धिः ताभ्यां सदा केलदि योगनाधस्तं सिद्धि बुद्धिशमधो नमामि असत्यसत्साम्य तुरीयनैजगनिवृत्तिरूपाणि विरच्य खेलकः सदा स्वयं योगमयेन भाधि तं नमाम्यदोऽहं त्वद अमङ्गलं विश्वमिदं सहात्मभिरयोग संयोगयुधं प्रणश्वरं ततः परं मङ्गलरूपधारकं सर्वत्र मान्यं सकलावभासकं सुज्ञैः शुभादावशुभादिपूजकं पूज्यं न तस्मान्निगमादिसम्मं तं सर्वपूज्यं प्रणतोऽस्मि नित्यम् भुक्तिं च मुक्तिं प्रददादितुष्टो भक्तिप्रियो यो निजविघ्नहा च भक्त्या विहीनाय ददातिविघ्नास्तम् विघ्नराजम् प्रणमामि नित्यम् नामार्थयोक्तम् कथितम् प्रियेते विघ्नेश्वरस्यैव परं रहस्यम् त्रिःसप्तनाम्नाम् हृदयम् नरो मयो भवेदिह गङ्गोवाच नाम्नां यत्हृदयम् प्रोक्तम् त्वया ब्रह्मपदम् परं न तत्रानुभवो मेदु तदर्थम् वदशङ्कर शङ्कर उवाच मन्त्रम् गृह्य गणेशस्य पुरश्चरणमागतः भजतं तेन ते ज्ञानम् भविष्य दिनसंशयः ृदयम् मन्त्रराजस्य कथयामि समासदः मन्त्र एव गणेशानो न भिन्नस्तत्र वर्तते गकारो ब्रह्मदेवाश्चाकारो विष्णुः प्रकीर्तितः बिन्दुशिवस्तथाभानुरनुनासिकसञ्ज्ञितः धिर्मह शक्तिरेन्द्र स उच्य से देद गणनाधस्योग कारक्यस्ताम सपन्नम प्रि पुरा अतस्तायुदो मंद्रो गणेशक्षकृति तारस्सषड्विधप्रोक्तस्थं निबोध सरित्वरे अकारोकारकौ प्रोक्तौ मकारो नादबिन्दुकौ शून्यं विद्धिमहामाये तत्र भेदं वदाम्यहं शून्यं देहि स्वरूपं तु बिन्दुर्देह इति स्मृतः विश्वं चुर्विधम विश्व स्थूलाभेदृशम गजाननं। मंद्रराज गजाननम आगमोक पुरा तदो गणेशरम पूज्य जपं कुचक्षण त दशांश न होमं वै कुर्यादागममार्गदः तद्दशांशमिदं प्रोक्तं तर्पणं गणपश्य च तद्दशां शमिदं देवि मार्जनं तद्दशांशदः विप्राणां भोजनं प्रोक्तमेवं पञ्चाङ्गमुच्यते यथाविधिकृतं चैदत्सद्यो हि फलदं भवेद अतस्त्वं मन्त्रराज्यस्य पञ्चकं तत्समाचर देवमुक्त्वा ददात्तस्यै मन्त्रं विधिसमन्वितं गणेशस्य प्रणम्यैव मां ययौ सा तपोर्थदः मयूरेशं समासाद्य चकारतपमुत्तमम् गंगा त्र विप्रेश मंद्रध्यानपरायण पुस्समेकसितासा याद गणेशो भक्वत्सल तपया तर हृदूव तेनक विशदनाथज्ञा तत् क्षणादभूत तदो हर्षयुधा देवी चकारः नित्यं भक्तिसमायुक्दा भजत्त गणनायकं सनकाद्या ऊजुः ब्रह्मभूदा सरिश्रेष्ठा मयूरेशं कथं प्रभो अभजत्तस्य मार्गं नो नाथ नमोऽस्तु शिव उवाच ब्रह्मभूदो नरो योगी गणेशमभजत् सदा नवधा भक्तिभावेन तत्परश्च महर्षयः पुत्रः कलत्रं जनकौ सुहृद्गणो द्रव्यं सखा वृत्तिजविद्ययायुधम् स्वर्गस्तु मोक्षो विविधं त्वमेव मे स्वामी गुरुर्विघ्नपदिः परात्परः सांसर्गिकं कायिकवाचिकम्परं कर्माचरं मानसजं त्रिदेकतः ज्ञानं हृदिस्थं च परात्परं विघ्नेश्वरायेदिसमर्पितं किल योगाकारेण विघ्नेश एकानेपदिसंश्रितः का भुङ्गे स भोगान शुभा शुभा समाश्रितान् नाखं नरस्वयं साक्षात् क्रीडति गणनायकः स्वामिसेवकभावेन रथो ब्रह्मणि शोभते अनेन विधिना विप्रा भजन्ते गणनायकम् योगिन्नच्छुकमुख्याश्च मुद्गलाद्या महर्षयः एतत्सर्वं समाख्यातं मुह्यं गणपतेर्मया हृदयं तेन विघ्नेशं तोषयध्वं महर्षयः यथा देहेन्द्रियाद्येषु मुख्यं स्वहृदयं स्मृतम् यत्र जीवस्वरूपेण तिष्ठति गणनायकः तथा गणपतेरेदधृदयम् परिकीर्तितम् अत्र योगपदिः साक्षात् ब्रह्मनायकः दि अनेन गणनाथं तु यस्तोष्यदि नरोत्तमः सभुक्त्वा भुक्त्वा सकलन् भोगानन्दे योगमयो भवेद् एवं मदीयवाक्यं ते श्रुत्वा ब्रह्मसुदाः परं प्रणम्य सर्वे सनकाद्यास्तपोवनं यकाक्षरस्य मन्द्रस्य पञ्चकं सेव्ययोगिनः गणेशहृदयं ज्ञात्वा गणपत्या बभूविरे तदो नित्यं गणेशस्य हृदयं ते महर्षयः जपन्ति भक्तिसंयुक्ता भ्रमन्ति स्वेच्छये जिताः अत त्वमपि धावेन गणेशहृदयं परं सेवस्वगानपत्येषु तथा मुख्यो भविष्यसि मुग्गल उवाच एवमुक्त्वा महानागम् शेषाय प्रददौ शिवः मन्त्रमेकाक्षरं साङ्गं सययौतं प्रणम्य च साधयित्वा य धन्यायं हृदयज्ञो नित्यं हृदयकेनैव तुष्टावद्विरदाननं गणेशहृदयं पुण्यं शृणुयाश्रावयेन्नरः ईप्सितं इप्सितं दन्दे ब्रह्मभूदो भवेदिदं नित्यं पठेन्नरश्चेदं हृदयं गणपश्ययः स गणेशो न सन्देहो दर्शनात् सिद्धितो भवेद् पुत्रपौत्रफलत्रादिलभते पाठतो नरः धनं सुविपुलं धान्यमारोग्यमचलां श्रियम् एकविंशतिवारं यो दिवसानेकविंशतिं पठेत् गणपतिं छिद्यं स लेभे दीप्सितं फलम् असाध्यं साधयन्मध्यो गणेशहृदयेन यद राजबन्धातृकालेषु मोचयेत् पाठतो विधे मारणोच्चाटनादीनि वश्यमोहादिकानि तु अनेन साधयेन्मर्थ्य परकृत्यं संग्रामे जयमाप्नोदी जयमाप्नोति वीरश्रीसंयुधो भवेद अस्य पाठेन भो दक्ष न किञ्चिद्दुर्लभं भवेद विद्या मायुर्यशप्राज्ञामङ्गहीनोऽङ्गमाप्नुयाद यं यं चिन्तयते मर्त्यस्तं तं, तं प्राप्नोति निश्चितं नानेन सदृशं किञ्चित् शीघ्रसिद्धिकरं भवेद् साक्षाद्गणपते प्रोक्तं हृदयं ते मया विधे गणेशभक्तिहीनाय दुर्विनीताय विद्विषे न देयं गणराजस्य हृदयं वै कदाचन गणेशभक्तियुक्ताय साधवे च प्रयत्नतः दातव्यं तेन विघ्नेशसु प्रसन्नो भविष्यति महासिद्धिप्रदं तुभ्यं कथितं गणपस्य च हृदयं किं पुनः श्रोतुमि प्रजापदे ॐ तत्सदिति श्रीमदान्ध्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे अष्टमे खण्डे धूम्रवर्णचरिते गणेशहृदयकथनं नामैकोन पञ्चाशत्तमोऽध्यायः ॐ